योऽसौ दिव्याः कथा वेद देवतासुरसंश्रिताः मनुष्योरगन्धर्वकथा वेद च सर्वशः स चाप्यस्मिन्मखे सौते विद्वान्कुलपतिर्द्विजः दक्षोधृतव्रतो धीमाञ्छास्त्रे चारण्यके गुरुः सत्यवादीशमपरस्तपस्वीनियतव्रतः सर्वेषामेव नो मान्यः सतावत्प्रतिपाल्यताम् तस्मिन्नध्यासति गुरावासनम् सौतिरुवाच एवमस्तु गुरौ तस्मिन्नुपविष्टे महात्मनि तेन पृष्टः पुन्या वक्ष्यामि विविधाश्रयाः सोऽथविर्प्रर्षभः सर्वम् कृत्वा कार्यम् यथाविधि देवान्वाग्भिः पि त्रिर्नद्भिस्तर्पयित्वा जगामः यत्र ब्रह्मर्षयः सिद्धाः सुखासीनाधृतव्रताः जिघ्यायतनमाश्रित्य सूतपुत्रपुरःसराः ऋत्विक्षथसदस्येषु स वै गृहपतिदा उपविष्टेशूपष्ट श्री महाभारते आदिपर्णी पौनोम पर्व कथावेशो ना चतुर्थ्याय